तनोद्वहनसङ्क्षोभान्नम्यमाना पदे पदे त्रिवलीदामचित्रेण मध्येनातीवशोभिना अधो अधोभूधरविस्तीर्णं नितम्बोन्नतपीवरं मन्मथायतनं शुभ्रं रसनादामभूषितम् ऋषीणामपि दिव्यानां मनोव्याघातकारणं सूक्ष्मवस्त्रधरं रेजे जगनं निरवद्यवत् गूढगुल्फधरौ पादौ ताम्रायततलाङ्गुली कूर्मपृष्ठोन्नतौ चापि शोभेते किङ्किणीकिणौ सीधुपानेन सीधुपानापेन तो्याथ मदन च विलासन विविध प्रेक्षणीयतरा भवत्चारणगंध सा विलासिनी बह्वाशे वै स्वर्गे दर्शनीयतमा सुसूक्ष्मेणोत्तरीयेण मेघवर्णेन राजता तनुरभ्रावृता व्योम्नि चन्द्रलेखेव गच्छति ततः प्राप्ता क्षणेनैव द्वारमनुप्राप्ता द्वारस्थैश्च निवेदिता अर्जुनस्य नरश्रेष्ठ उर्वशी शुभलोचना उपातिष्ठत तद्वेश्मनिर्मलम् सुमनोहरम् सशङ्कितमनाराजन् प्रत्युद्गच्छत दृष्ट्वैव चोर्वशीं पार्थो लज्जा संवृतलोचनः तदाभिवादनं कृत्वा गुरुपूजाम् प्रयुक्तवान् अर्जुन उवाच अभिवादये त्वां शिरसा प्रवराप्सरसां किमाज्ञापयसे देवी प्रेष्यस्तेऽहमुपस्थितः फाल्गुनस्य वचः श्रुत्वा गतसञ्ज्ञा तदुर्वशी गन्धर्ववचनम् सर्वम् श्रावयामास तदा उर्वश्युवाचा यथा मे चित्रसेन कथितं मनुजोत्तम तत्तेऽहं सम्प्रवक्ष्यामि यथा चाहमिहागता